अथ चतुर्दशोऽध्यायः युधिष्ठिर उवाच असाम् निध्यम् कथम् कृष्ण तवासीद्वृष्णिनन्दना क्व चासीद्विप्रवासस्ते किञ्चाकाशीः प्रवासतः श्रीकृष्ण उवाच शार्वस्य नगरम् सौभम् गतोऽहम्भरतर्षभा निहन्तुम् कौरव श्रेष्ठतत्र मे शृणुकारणम् महातेजामहाबाहर्यः स महा दमघोषात्मजो वीरः शिशुपालो मया हतः प्रति सरोषवशमापन्नोन्नामृष्यतदुरात्मवान् श्रुत्वा तम् निहतम् शाल्वस्तीव्ररोषसमन्वितः उपायाद्वारकाम् शून्यामि हस्ते मयि भारत स तत्र योधितो राजन्कुमारैर्वृष्णिपुङ्गवैः आगतः कामगंसौभमारुह्यैव नृशंसवत् ततो वृष्णिप्रवीरांस्तान् बालान् हत्वाबहुं बहुंस्तदा पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः उक्तवांश्च क्वासौ वृष्णिकुलाधमः वासुदेवः स मा वसुदेवसुतो गतः तस्य युद्धार्थिनो दर्पम् युद्धेनाशयितास्म्यहम् आनर्ता सत्यमाख्यात तत्र